चाणक्यनीति अध्यायम् वन् प्रणम्यशिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुं नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् अधीत्येदं यथाशास्त्रम् नरो जानादिसप्तमः धर्मोपदेशविख्यातं कार्याकार्यम् शुभाशुभम् तदहं संप्रवक्ष्यामि लोकानाम् हितकाम्यया येन विज्ञादमात्रेण सर्वज्ञत्वम् प्रपद्यते मूर्खशिष्योपदेशेन दुष्टस्त्री भरणेन च दुःखितै सम्प्रयोगेण पण्डितोऽप्यवसीदति दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ससर्पेच च गृहे वासो मृत्युरेव संशयः अपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि आत्मानं सततं रक्षेत् दारैरपि धनैरपि आपदर्थे धनं रक्षेत् श्रीमदां कुत आपदः कदाचिच्चलदे लक्ष्मीसञ्चितोऽपि विनश्यति यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः न च विद्यागमकश्चित् तं देशं परिवर्जयेत् धनेकश्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः पञ्च यत्रन न विद्यन्ते न तत्र दिवसं वसेद् लोकयात्रा भयं लज्जा दाक्षिण्यम् त्यागशीलता पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे मित्रम् चापत्तिकालेषु भार्याम् च विभवक्षये विभवक्ष आसने प्राते दुर्भिषे शुसे राजस्तिषति सोध्रुवाणी परित्यज्य अध्रुव परिशेवते ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकां रूपशीलां नीचस्य विवाहसदृशे कुले नखीनां च नदीनां च शृङ्गिणां शास्त्रपाणिनां विश्वासो नैव कर्तव्यस्त्रीषु राजकुलेषु च विषादप्यमृतं ग्राह्यम् अमेध्यादपि काञ्चनं नीचादप्युत्तमा विद्या दुष्कलादपि आहारोद्विगुणस्त्रीणां बुद्धिस्तासां च दुर्गुणा साकसं षड्गुणं चैव कामश्चाष्टगुणस्मृतः ओ